अथर्वेदे षष्ठाष्टके प्रथमोऽध्यायः ओ यन्द्रसोमपादमोमदर्शमिष्ठचेतति येनाहम् सिन्या अत्रिणन्दमीमहे येना दशग्मवध्रिगुम्बेपयन्तम् स्वर्णरम् येनासमुद्रमाभिथातमीमहे ये सिन्धुम् महीरपोरथाः गिव प्रचोदयाः पन्थामृतस्य जातवेतमीहीमहे इमम् स्तोममभिष्टये कृतन्न भूतमद्रिवः ये नानुसद्य ओजसा ववक्षिथ इमञ्जुषस्व गिर्वणः समुद्र इव यो नो देवः परापदः सखि त्वराय मामहे दिवो न वृष्टिम् रथयन् बवक्षिथ भवक्षुरस्य केतव उत यत्सूर्यो न रोदसी अवर्धयत् यदि प्रवृद्धसत्पदे सहस्रम् महिषाम् अघाः आदित्त इन्द्रियम् महि इन्द्रः सूर्यस्य रश्मिजन्यदृशानमोशति अग्निर्वने वसा सहिः प्रवाहावृधे इयन्तऋत्प्रिया वते धेतिरेतिलवीयसी दे स्पर्यन्तेः पुरुप्रियामिमीहीत इत् गर्भो यज्ञस्य देवजुः क्रतुम् पुनीत वावृधे मिमीत इत् स निर्मेत्रस्य पप्रथ इन्द्रः सोमस्य पीतये प्राचीवाशी एव सुन्वते मिमीत इत् यम् विप्रा आ उक्थवा आहसोऽभिप्रमन्दुराजवाः धृतन्नपिप्य आसन् निरतस्य यत् उत स्वराजे अदिति स्तोममिन्द्रायजीजनत् पुरुप्रशस्तभूतय अभिवह्नय ऊतये नो ओषधप्रशस्तये न ते मविव्रताहरे रतस्य यत् यत्सोममिन्द्रविष्णवि यद्वा आघत्रित आप्ये यद्वा आमरुत्सु मन्दसे समिन्दुभिः यद्वा आशक्रपरापति समुद्रे अधिमन्दसे अस्माकमिच्छुतेरणा समिन्दुभिः यद्वासि सुन्वतो उक्थे वा यस्यरण्यसि समिन्दुभिः देवन्दे एवम्बो वस इन्द्रमिन्द्रम् अधा आ यज्ञायतुर्वदेव्या आनशुः यज्ञा संसो मे एभिः सोभपातमम् होत्राभिरिन्द्रम् वावृधुर्व्या आनशुः महेरस्य विश्वापसूनिदाशुषेव्या नशुः इन्द्रम् वृत्राजहन्त वेदेवासो दधिरे पुरः इन्द्रम् वाणीरनुषता समोजसे महान्तम् महिला वयं स्तोमेभिर्हवलश्रुतम् अर्कैरभिप्रणो नुमः समोजसे नयम् विविक्तो रोदसीनान्तरिक्षाणि भद्रिणम् अमादिदस्यतित्विशेषमोजसः यदिन्द्रभृतराज्ये देवा स्वादधिरे आद पुरः आदित्ते ए हर्यता हरे एव वक्षतुः यदा वृत्रन्न देवृतं शवसावध्रिन्नवधेः आदित्ये ए हर्यता हरे एव वक्षतुः यदा ते पदाविचक्रमे आदित्ते ए हर्यता यदा, बे बे यदा ते हर्यदा हरि एवावृथा ते दिवे दिवे आदित्ते विश्वाभुवनानि येमिरे यदा ते मारुतेर्विशस्तुभ्यमिन्द्रनियेमिरे आदित्ते विश्वाभुवनानि येमिरे यदा सूर्यमवन्दिविशुक्रम् ज्योतिरथा आरयः आदित्ते विश्वाभुवनानि येमिरे इमान्त इन्द्र सुस्तुतिर्विप्र इयर्ति धीतिभिः यामिम् पदेमपि प्रतीम् प्राध्वरे यदस्य धावनिप्रिये समीचीनासो अस्मरन्न नाभायज्ञस्य दोहनाप्राध्वरे सुवीर्यम् स्वश्यम् सुगव्यमिन्द्रदद्धिनः होते एव पूर्वचित्तये प्राध्वरे इन्द्रः सुतेषु सोमे सुक्रतुम् पुनीत उक्थ्यम् विदेवृधस्य दक्षसो महान् हिषः सप्रथमे यो मणिदेवानाम् सदने वृधः सुपारः शुश्रवस्तमः समप्सुजित् तमः वे वाजसातय इन्द्रम् भराजशुष्पिणम् भवा आनः सुम्रे अन्तमः सखा वृधे क्षरति सुन्मतः मन्दारो अस्य बर्हिषो विराजसि ोऽनन्तरिन्द्रदद्धि नो यत्ताः सुन्वन्तईमहे अजिन्नश्चित्रमाभराः स्वर्विदम् स्तोतायत्ते विचर्षणिरतिप्रशर्धयद्गिराः वया इवानुरोहते जुषन्त यत् रत्नवज्जनयागिरः शृणुधीजऋतुर्भवम् मते मते वपक्षिथा सुकृत्वने क्रीडन्त्यस्य सुवृता आपो न प्रवता आयतेः अया धियाय उच्यते पतिर्दिवः उरोपतिर्य उच्यते कृष्टीनामेक इद्वशी नमो वृथैरवस्युभिः सुतेरण स्तुहिः श्रुतम् विपश्चितम् हरे यस्य प्रसक्षिणाः दन्ता आरादाशुरो गृहन्नमस्मिनाः तो तु जानो महे मतेष्वे एभिः आया आहि यज्ञमाशुभिः इन्द्रशविष्ठसत्पतेरजिम् गृणत्सुधारय श्रवः सूरिभ्यो अमृतम् वसुत्तनम् हवेत्पासूर उदिते हवे मध्यम् दिने दिवः जुषाण इन्द्रसप्तिभिर्न आ गहि आतो गहि प्रतुद्रपमत्स्वा आसुतस्य गोमतः तन्तुम् तनुष्वपूर्व्यम् यथा आपिते यच्छक्रासि परावति यदर्वावति वृत्रहन्न यद्वा आसभुद्रे अन्धसो वितेदसि इन्द्रम् वर्धन्तु नो गिर इन्द्रम् सुतास इन्दवः इन्द्रे एहविष्मतेर्विशो अनिर्वर्धन्तु नो गिरः सदा वृथम् स्तोतायत्ते अनूरत उक्था दधे सुजिष्पाभग उच्यते सो अद्भुतः तदिद्रुद्रस्य चेतति यः पम् रत्नेषु धामसो मनो यत्रावितद्दधुर्विचेतसः यदिमे इमस्य बाह्यन्धसः येन विश्वा अतिद्विषो अत आरिम कदा त इन्द्रगिर्वणस्तोता भवाति शन्तमः कदा नो गव्ये अश्वेऽवसौ दधः व्रते सुष्ठुता हरे वृषणावहतो रथम् अधुर्यस्य मदिन्तमञ्जमेमहे तमेयेमहे पुरुष्टुतम् यः रत्नाभिरोतिभिः निबर्हिषि प्रिये स ददधद्विता वर्धस्वासु धृक्षस्वभिक्षुषेऽपिषमवा आचनः इन्द्रत्वमपि चेदसेत्थास्तु मतो अद्रिवः मृतादियर्मितेधियम् मनोजुजम् यहत्या सधमाद्या आजुजानः सोमपीतये हरेः इन्द्र प्रतद्वसो अभिस्वर अभिस्वरम् अभिप्रयाः इमा अस्य प्रतोऽर्तयः पदञ्जुषन्तयद्दि नाभा आ यज्ञस्य सन्तधुर्यथा आविदे अयम् दीर्भाय चक्षसे प्राचिप्रजत्यध्वरे निमे एते यज्ञमा आनुषग्वितक्ष्या वृषायमिन्द्रते रथ उतो ते वृषणा हरेः वृषा त्वम् शतक्रतो वृषाहवाह वृषा ग्रावा वृषापदो वृषा सोमो ओ अयम् सुतः वृषा आयज्ञोऽयमिन्वसि वृषाहवाः वृषा आ त्वा वृषणम् भुवे वज्रित्राभिरूतिभिः वावन्धहि प्रतिष्टुतिम् वृषा हवाह यदिन्द्राहम् यथा त्वमीशीजवस्व एक इत शिक्षे एयमस्मै जित्से एयम् शचे एपते मनीषिणे यदहङ्गोपतिस्याम् धेनुष्ट इन्द्रसूदृताय जमानाय सुम्भते दामश्वम् पित्युषे एदुहे न ते एव भर्ता स्थिराधस इन्द्रदेवो न मत्याह यद्दित्ससि स्तुतो यज्ञ इन्द्रमवर्धयद्यद्भूमिम् व्यवर्तयत् चक्राड ओ ओ पशन् दिवे पावृधानस्य ते वयम् विश्वाधनानि जिज्ञुषाः ओतिमिन्द्रावृणीमहे व्या अन्तरिक्षमतिरन्मदे सोमस्य रोचना इन्द्रो यदभिनद्बलम् उद्गा आचदङ्गिरोऽभ्य आविष्कृण्वन् गुहा आसतेः अरुवाञ्चन्नु हृदेवलम् इन्द्रेण रोचनादिवो दृढानि संहितानि च स्थिराणि न पराणुदे अपाभूर्मिर्मदन्निभस्तोम इन्द्रादिरायते विते मदा आ अरादिषुः त्वम् हि इन्द्रमित्केशिना हरे सोमपेया आयवक्षतः उपयज्ञम् सुराधसम् अपाम्भेने नमुचे शिर इन्द्रोदवर्तयः विश्वाय त यः स्पृथाः मायाभिरुत्सिसृप्सत इन्द्रद्यामारुरुक्षतः अपदस्यो ॐ रसोऽनुथाः असुन्वामिन्द्रसंसदम् विशोचीम् व्यनाशयः सोमपा उत्तरो भवन्न तम् अभिप्रगायत पुरुहूतम् पुरुष्टुतम् इन्द्रङ्गेर्भ्यस्तविषमाभिभासत यस्यद्विवर्हसो बृहत्सहोदाधार रोदसे गिरेङ्ग्रज्राम् अपः स्वर्ष सरा आजसि पुरुष्टुतम् एको वृत्राणि जिघ्नसे इन्द्रजयित्रा आश्रवस्या आचयन्तवे ते मरम् गृणीमसि वृषणम् वृत्सुसा आसहिम् पुलोककृत्नुमद्रिवो हरिश्रियम् येन ज्योतिंश्यायवे मनवे च विवेदिथ वन्दानो अस्य बर्हिषो बिरा आजसि तद्या चित्त उक्थिनोऽनुष्टुवन्ति पूर्वसाः कृषपत्नीरपोजया दिवे दिवे तपत्यतीन्द्रियम् बृहत्तवसुष्मभुत क्रतुम् वज्रम् शिशातिधिषणापरे एण्यम् तपद्यौरिन्द्रपौंस्यम् पृथिवी वर्धति श्रवाः त्वामापः पर्वतासश्च हिन्विरे त्वाम् विष्णुर्गृहङ्क्षजो मित्रो वृणातिवरुणः त्वाम् श्रद्धो मदत्यनुमारुतम् त्वम् सर्त्रा विश्वा आश्वपत्यानि दधिषे सर्त्रात्वम् पुरुष्ुतम् एको वृत्राणि तोषसे नान्य इन्द्रात्करणम् भूय इन्वति यदिन्द्रमन्वशस्वा नानाहवन्त ऊतये अस्माकेभिर्नभिरत्रास्वर्जय अरङ्क्षया आयो महे विश्वा आरूपाण्याविशन्न इन्द्रम् जयित्रायहर्षया चेपतिम् प्रसम्राजम् चर्षणीनामिन्द्रम् स्तोतानव्यम् गीर्भिः नरम् दृशाहम् वह्निष्ठम् यस्मिन्नुक्था निरण्यन्ति विश्वालिकश्रवस्याः अपामपोनसमुद्रे तम् सुत्या विवासे ज्येष्ठराजम्भरे कृत्तुम् यस्या नो नागभीरामदा आ उरवस्तरुत्राः हर्षुमन्तः शूरसादौ तमिद्धने एषु हितेष्वधिभागाय हवन्ते येषामिन्द्रस्ते यजन्ते तमिच्छोत्मैरार्यन्ति तम् कृतेभिश्चर्षणजाः एष इन्द्रो अवरिमस्कृत इन्द्रो ब्रह्मेन्द्रर्षिरिन्द्रः पुरो पुरुहूतः महान्महेभिश्चेभिः स स्तोम्यः स हव्यः सस्यः सत्त्वा तु वि कूर्मिः एकश्चित् सन्नभिभूतिः तमर्केभिस्तम् सामभिस्तङ्गायत्रैश्चर्षणजाः इन्द्रम् वर्धन्ति क्षितजाः प्रणेतारम्भस्यो अच्छाकर्ता रञ्ज्योतिः स वत्सो सा स स नः पप्रिः पारयाति स्वस्ति ना वा पुरुहूतः इन्द्रो विश्वा अतिद्विषाः स त्वन्न इन्द्रवाजेभिर्दशस्या च गातुजा आया आयिषुषुमाहित इन्द्रसोमम् विवाह इमम् एदम्बर्हिः सदो उप ब्रह्माणि न शृणु ब्रह्माणस्ताभयम् युजासो मपामिन्द्रसो विनाः सुतावन्तोऽहवामहे आ नो याहि सुतावतोऽस्माकम् सुष्ठुतिरुपा पिपासु शिप्रिन्नन्धसः आ ते सिञ्जामि कुक्षोरमुगात्राभिधावतु प्रभाय जिह्वयामथु स्वादुष्टे अस्तु संसुदे मधुमान् तन्वे एतव सोमः शमस्तु ते हृदे अयमुत्त्वाभिचर्षणे जनेरिवाभिसंवृतः सोम इन्द्रसर्पतु विग्रीवो वपोदरः सुबाहुरन्ध्रोमदे इन्द्रोः वृत्राणि जिघ्नदे इन्द्रप्रेहि पुरस्त्वम् विश्वस्येषा आ न ओजसा वृत्राणि वृत्रहञ्जहि दीर्घस्ते अस्मङ्गुशो येनावसु प्रयच्छसि यजमानाय सुन्वते अयन्त इन्द्रसो मो निपोतो अधिपर्हिषि एहि एमस्य द्रवापि वा शाचिगोशाचिपूजनाय मृणायते सुतः आखण्डलप्रहूयसे यस्ते शृङ्गवृषो नपात्प्रणवात्कुण्डपाय्याः यस्मिन्दध्रवामनाः वा स्तोष्पदे ध्रुवास्थूणाम् सत्रम् सोम्यानाम् द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनाम् सखाः हृदा आपुषाधुर्यजतो गवेषण एकः सन्नभिभूयसः भूर्ण्यमश्पन्नयत्तुजा पुरो गृभेन्द्रम् सोमस्य पीतये इदम् ह नूनमे एषाम् सुन्दम् भिक्षेतमर्त्याः आदित्या नाम पूर्व्यम् सबे एमनि अनर्वाणो ह्ये एषाम् पन्थाः आदित्यानाः अरब्धाः सन्ति भगो वरुणो मित्रो अर्यवा शर्म तेवे स्मत्सूरिभिः पुरुप्रिये सुशर्मभिः ते हि पुत्रा सो अदितेर्विदुर्द्वेषा अंसि योतपे अम्भोऽस्ति गुरुचक्रयोनेहसाः अदितिर्नो दिवा आ पशुमदितिर्नत्तमध्वजाः अदिति आ त्वम् सा शन्ता आतिमयस्करदपस्रिधाः उतत्या देव्याः भिषजाशन्नः करतो अश्विनाः युजुयाताः मितोरपो अपस्रिधाः शमग्निरग्निभिः करच्छन्नस्तपतु सूर्याः शम् वातो ओ वाक्त्वरपा अपस्रिधाः अपामेवामपसृथमपसेधन अपस्रिधा दुर्मतिम् आदित्यासो युजोतनानो अम्भसः युयोताशरुमस्मदाम् आदित्या स उतामतिम् पृथग्वेषः कृनुतविश्वभेदसः तत्सु नः शर्म यच्छतारित्यायन्मुमोचते येन स्वन्तम् चिदेन स सुदानवः यो रिपुम् यो अस्मत्रा दुर्हणा आवामुपद्वयोः आ कत्रास्थनदेवा हृत्सुजा आनीथमर्त्यम् उपद्वयुम् चाद्वयुम् च बसवः आशर्मपर्वता नामोतापा वृणीमहे या ना वा आक्षामाले अस्मद्रपस्कृतम् तेनो भद्रेण शर्मणा युष्वाकन्ना वा बसवः पथिविश्वा चेतनायतत्सुनोद्राघेय आयुर्जीवसे आदित्या सः सुमहसः कृणोतन यज्ञो हेणो भो अन्तर आदित्या अस्ति मृणता युष्मे इद्वो अविष्मसि स जात्ये बृहद्वरो ओथम् मरुता अन्दे वन्त्रातारमश्विनाः वित्रमे महे वरुणम् स्वस्तदे अनेहो मित्रार्यमन् नृवद्वरुणशंस्यम् त्रिवरोऽम्मरुतो यन्तनश्चर्दिः ये चिद्धि मृत्युबन्धव आदित्यामनवस्मसि प्रसून आयुर्जीवसेतिरेतनङ्गूर्ध्वजास्वर्णरन् देवासो देवमरतिन्दधन्विरे देवत्राहव्यमोहिरे विभोतरातिम् विप्रचित्रशोचिषमग्निमे निष्पजन्तुरम् अस्य वेधस्य सौम्यस्य सो सोभरे प्रेमध्वरायपूर्व्यम् यदिष्ठन्तामहे देवन्दे भ्रात्रा होता रममस्य यज्ञस्य सुक्रतुम् ऊर्जो नरातम् सुभगम् सुदेदिति मग्निम् स नो मित्रस्य वरुणस्य सो अपामासुन्नै यक्षते दिवि यः समिधाय आहुति यो वेदे एनरदाशमर्तो अग्नये यो नमसा तस्ये तस्येदर्वन्तो ब्रह्म यन्त आशमस्तस्य द्युम्नितमञ्यशाः नर नमम्भो देवकृतम् कुतश्चलनमर्त्यकृतम् नशत् स्वग्नयो वो सुबीरस्तमस्मयुः प्रशंसमानो अतिथिर्णवित्रियोऽज्ञेरथो न वेद्याः त्वे क्षेमा आसो अभिसन्दि साधवस्तम् राजा आरयिणा सोऽद्धा दाश्वद्भरोग्नेमर्तः सुभगस प्रशंस्याः स सो सलितासवि पञ्जुभिः सशूरैः सलिता कृतम् यस्या ग्यर्वपुर्गृहे स्तोमञ्ज नोदथे एत विश्ववार्यः हव्याभावेऽपिषद्विषाः विप्रस्य वा स्तु पदः सहसो यहो भक्षोत्तमस्य यो अग्निम् हव्यदातिभिर्नमो अभिर्वा सुदक्षमा विवासति गिरा वा आजिरशो ओजिषम् समिधा यो निशितीराशदति चिन्धामभिरस्य मत्याः विश्वेत्सथेभिः स्वभगो जनाम् अतिद्युम्नैरुद्न इव तारिषत् तदग्नेद्युम्नमा भरयत्सा सहत्सदने कञ्चिदत्रिणम् मन्यञ्जनस्य दूढ्याः येन चष्टे वरुणो मित्रो अरुण्यमा येन न सत्याभगाः वयम् तत्ते शवसागादुवित्तमा इन्द्रत्वताभिधेमहि ते हे लग्ने स्वाध्यो ये विप्रा आसो देव सुक्रतुं क इद्वेदिम् सुभगत आहुतिम् ते सोतुञ्चक्रिरे दिली इद्वाजे एभिर्जिग्युर्महद्धनैजे त्रे कामन्येरिरे भद्रो नोः अग्निराहुतो भद्रारादिः सुभगभद्रो अध्वरः भद्रा, सुभग भद्रा उत प्रशस्तयः भद्रम् मनः कृणुष्वरुत्रतुर्ये जेनाः समत्सु सासहाः अवस्थिरतनु हि भूरिषर्धताम् वनेमा ते कीडे ए गिरामधुरुहितम् यम् देवादूतमरतिन्ये एरि यजिष्ठम् भव्यहनम् तिग्मदम्भाजतरुणाय राजते प्रयो राजस्यग्नये एः पिंसते ए सोनृताभिः सुवीर्यमग्निर्घृतेऽभिराहुतः यदे ए घृतेभिराहुतो वाशे एमग्निर्भरत यो हव्यान्यैरजता मनुर्हितो देव आशासु गन्धिना विवा आसते वार्याणिष्वध्वरो होता आ देवो अमर्त्यः यदर्णेमर्त्यस्त्वम् स्यामहम् मित्रमहो अमर्त्यः सहसून बाहुत न त्वा आरासीयाधिशस्तयेव सोनपा आपत्त्वायसन्त्य न मे ए स्तोतामतीव न दुर्हितस्यादग्नेन पापयाः पितुर्न पुत्रः सुहृतो दुरोण आदेवाम् एतुप्रणोहमिः तवाहमग्न ऊतिभिर्नेधिष्ठाभिः सचे यजोषमावसो सदा आ देवस्य आसने यन्तवरातिभिरग्ने तव त्वामिदा आहुः प्रमलिम्बसो ममाग्ने हर्षस्वदातवे वसो अग्ने तभोतिभिः सुवीरा आभिस्तिरते वाजभर्मभिः यस्य त्वम् सक्षमापराः तव द्रप्सो नीलवान् वाशरुत्विय इन्धा नसिष्णवाददे त्वम् महीनामुषसामसि प्रियः क्षपो वस्तुषु ोभरयः सहस्रमुष्टम् स्वभीष्टिमवसे सम्राजन्धासदस्यवम् यस्य ते अग्ने अन्ये अग्नय उपक्षितो वयाइव इव निपो न चुम्नान्युभे जनान्तवक्षत्राणि वर्धयन् यमादित्यासो अद्रुहः पारन्नयथमत्यम् मघोनाम् विश्वे सुदानवः योऽयम् रा आजानः कञ्चिच्चर्षणे सहः क्षयन्तम् मानुषामनु वयन्ते वो वरुणमित्रार्यमन्स्या मे धृतस्य रथ्याः अदान्नेवो लुकुत्स्यः पञ्चाशतम् त्रसदस्युर्मधूना मम्निष्ठो अर्यः सत्पतिः उत मे प्रययोर्वययोः सुवा स्वा अधितुभ्वनि णाम् सप्ततीनाम् श्यापः प्रणेता पुद्वसुर्दियानाम् पतेः आगन्तामारिषण्तप्रस्थावा नो मापस्थाता समन्यवः स्थिराचिन्नमयिष्णवः वेणुपरिभिरुतर्भुक्षण आरुद्रासु दीतिभिः इशानो अद्यागता पुरस्पृहो यज्ञमासोजवाः विद्माहि रुद्रियाणाम् शुष्ममुग्रम् मरुताम् शिमीपताम् विष्णो रेषस्य मीळुषाम् विद्धीपालिपापतम् तिष्ठद्धुच्छुनो भेजुजन्तरोदसे प्रथम् वा न्यैरथशुभ्रखादयोजते यथस्व भानुवः अच्युताचिद्भो अज्मन्नानदति पर्वता सो वनस्पतेः भो मिर्यामेशु रेजते अमा आयवो मरुतो जात भेद्यौर्जि त उत्तरा बृहत् यत्रा न रोदे दिशते तनुश्वा त्वक्षा अंसि बाह्वो ओजसः स्वधामनुश्रियन्नरो महित् तेषा अमवन्तो वृषप्सवः वहन्ते अहृदप्सवः वोभिर्वाणो अज्यते सोऽभरीणाम् रथे गोबन्धवः सुजाता स इषे भुजे महान्तो ओनःस्परसेनो प्रतिपो वृषदञ्जजो वृष्णे श्रद्धा आयमारुताय भरद्भम् हव्या वृषप्रयाम्णे वृषणश्वेन मरुतो वृषप्सुनारथे एन वृषणाभिना आश्येन सोनपक्षिणो वृथा आनरो हव्यानो वीतये एकत समानमन्ये येषाम् रुक्मासो आजन्ते रुक्मासो अधिबाहुषो दविद्युदध्युष्टयाः त उग्रासो विषण उग्रवाहवो निष्टनूषु येतिरे स्थिराधन्वान्यायुधारथे एषु वोनीकेष्वधिश्रियाः येषामर्णो न सप्रथो नामत्वेषम् शश्वतामेकमिद्भुजे वयो न पित्र्यम् सहाह ताम् मन्दस्तमरुतस्ताम् कुपस्तु हि तेषाम् हिधुनीनाम् अराणान्न च रमस्तदेशाम् ऊतिश्वासपूर्वा आसुमरुतो द्युष्टिषु यो वा यस्य वा यूयम् प्रतिवाजिनो ओ नर अभिषर्जुम्नैरुतवाजसादिभिः सुम्नवोऽधूतयोनशत् यथा आ यथा सूनवो अधिपोपशन्त्यसुरस्य मेधसाः युवा आनस्तथेदसत् ये चारहरन्ति मरुतः ये अथश्चिदान उपवस्य सा हृदा युवा आन आवृद्धम् यो न ऊषुण विष्ठजा विष्णः पावका अभि सोऽभरे गिरा गायगा इव चर्कृषत् साहाये सन्ति पुष्टिः वहव्यो विश्वासु पृत्सुः दृशु कृष्णश्चन्द्रान्न शुश्रवस्तमान् गिरा वन्दस्व मरुतो अह गावश्चिद्घासमन्यवः सदात्येन मरुतः स बन्धवः विहरे ककुभोऽभिधः मर्तश्चिद्वो अधिनो गातमरुतः स दाहिव आभि मरुतो मारुतस्य न आभेषजस्य वहता सुदानवः योऽयम् सखायः सत्तयः याभिः मयो नो भूतोदिभिर्मयो भुवः यत्पर्वते शुभेषजम् विश्वम् पश्यन्तो विवृथातनोऽश्वा तेना नो अधिमोचन क्षमारवो मरुतः तुरस्य न हिष्कर्ता विहृतम् पुराह इति षष्ठाष्टके प्रथमोऽध्यायः